अथ षट्चत्वारिंशम् दशकम् अयि देव पुरा किल त्वयि स्वयमुत्तानशयेस्तनन्धये परिजृम्भणतो व्यपावृते वदने विश्वमचष्टवल्लवी पुनरप्यथ बालकैः त्वयि लीला निरते जगत्पते फलसञ्चय वञ्चन क्रुधा तव मृद्भोजनमूचुरर्भकाः अयि ते प्रलयावधौ विभो क्षितितो यादि समस्त भक्षिणः मृदुपाशनतो रुजा भवेदिति भीता जननीचुकोपसायि दुर्विनियात्मक त्वया किमु मृत्सा बतवत्स भक्षिता इति मातृगिरम् चिरं विभो वितथाम् त्वम् प्रति जज्ञिषे हसन् अयिते सकलैर्विनिश्चिते विमतिश्चेद्वदनम् विदार्यताम् इति मातृविभर्त्सितो मुखम् विकसत् पद्मनिभम् व्यदारयः अपि मृल्लव दर्शनोत्सुकाम् जननीम् ताम् बहु कुहचिद्वनमम् बुधिः क्वचित् क्वचिदभ्रम् कुहचिद्रसातलम् मनुजादनुजाः क्वचित् क्वचित क्वचित सुरा ददृशे किन्न तदा त्वदानने कलशम् बुधिशायिनम् पुनः पर वैकुण्ठपदाधिवासिनम् स्वपुरश्च निजार्भकात्मकम् कति धात्वान्न ददर्शसा मुखे विकसद् मुखोदरे ननु भूयोऽपि तथा विधाननः अनया स्फुटमीक्षितो भवाननवस्थाम् जगताम् बतातनोत् धृततत्त्वधियम् तदा क्षणम् प्रणयेन मोहयन् स्तनमम्बदिशेत्युपासजन् भगवन्नद्भुत बाल पाहि माम् इति षट्चत्वारिंशम् दशकम्